भागवत्पुराणं श्रीमद्भागवतमहात्मे षष्ठोऽध्यायः श्रीशुकुवाच दृगं कल्पतरुर्गलितं फलं शुकमुखादमृतद्रवसंयुतं विवद्भागवतं रसमालयं हुरहो रसिका भुवि भावुकाः धर्मप्रोज्झितकैतवोत्र परमो निर्मं शतां वेद्यम् वास्तवं वास्तवमत्र वस्तु शिवदं तापत्रयो मूलनं श्रीमद्भागवते महामुनिकृतये किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषोभिस्तरक्षणं शुश्रूभिस्त रक्षणात् श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनम् यस्मिन् हंसमेव हंसमेवममलं ज्ञानं परं गीयते यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यम् आविष्कृतं तत्रण्ण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्ये नरः स्वर्गे सत्ये च कैलासे वैकुण्ठे नाशयं रसः अतः पिबन्तु सद्भाग्या मामुञ्चत कर्हि चे शोतुवाच एवं ब्रुमाणे सति पादरायणौ मध्ये सभायां हरिराविरासीत् प्रह्लादबल्योद्धवकाम् फाल्गुणादिभिर्वृतः सुररसितस्मन् पूजयच्यतान् दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदाम् भवो भवान्या कमलासनस्तु तत्रागमत्कीर्तनदर्शनाय प्रह्लादतालधारी तरलगतीं तया चोद्धवः कांस्यधारी वीणाधारी सुदर्शीं चरकुशलतां रागकर्ताजुनोऽभूत इन्द्रो वान्दीमृदङ्गं जय जय शूकरा कीर्तने ते कुमाराम् यत्राग्रे भावभक्ता सरसरचनयां व्यासपुत्रो बभूव त्रिकमेव तत्र भक्त्यादिकानां नटवस्तु तेजसाम् अलौकिकं कीर्तनमेतदीक्ष हरिप्रसन्नोऽपि वचो ब्रवीतद् मत्तो वरं भावृताग्णुध्वं प्रीतकथाकीर्तनतोऽस्मिन् कृतम् श्रुत्येतदद्वाक्यमतिप्रसन्ना प्रेमार्दचिद्दाहुरमोचरे ते न न गाह गाथासु च सर्वभक्तैरेभिस्वयाभाव्यमिति प्रयत्नात् ननो रथोऽयं परिपूरणीयं तथेति चोक्त्यान्तरधीयताच्युतः ततो न मत्तश्चरणेषु नारद तथा सुखादीनां न पीतापदास्य अत प्रहिष्टा परिनष्टमोहा सर्वे ययोऽपीतकथामृतासे धप्तिस्रुताभ्यां सह रक्षिता सा सासे स्वकीययेऽपि तदा सुखेन अतो हरिर्भागवतस्य सेवना चित्तं समायाति वे वैषमाणाम् दारिद्र्यदुःखजरदाहितानां मायापि साची परिमर्दितानां संसारसिन्धौ परिपातितानां थे माय वै भागवतं प्रजर्गति सौन उवाच सुखेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः सुसर्सये कदा ब्राह्मैश्चि छिन्दी मे संशयं तिमं श्रोतुवाच आ कृष्णनिर्गमातिस्रन्दरसाधिकगते कलौ नवमितो नभस्ये च कथारम्भं शुकोऽकरोत् परीक्षिन् परिक्षिसृणान्ते परिक्षि च कलौ वर्ष सतद्वये शुद्धे शुचौ नवभ्यां च धेनुजो कथयत्कथां तस्मादपि कलौ प्राप्तेति सद्वर्षगते सति उचिरुर्जे सिते पक्षे नवभ्यां ब्राह्मणः इत्ये इत्येतत्ते समाख्यातं यस्पृष्टोऽहं तया नघ भागवती वार्ता भवरोगविनाशिरेन् कृष्णप्रियं सकलकलमशनाशनं च मुक्तेकहेतुमिह भक्तिविलासकारी सन्तकथानकमिदं पिबतां पिबतादरेण तिवता लोके हि तीर्थपरिशीलनसेवया किं स पुरुषम् अपि वीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले परिहरकथं भगवद्गथासु बत्तान् प्रभुरहमन्यृणां न वैष्णवानाम् असारे संसारे विजयविषसङ्गाकुलधियः क्षणार्थं क्षेमार्थं पिबत सुखगाथातुलसुधाम किमर्थं व्यर्थं भो व्रजतकुपथे कुसितकथे परीक्षितसाक्षी जश्रवणगतमुक्त्योक्तिकथने रसप्रवाहं रसप्रवाहसंसेन श्रीसुखेनेरिता कथा कंठे सम्बध्यते येन सर्वैकुण्ठ प्रभुर्भवेत् इति च परमं गुह्यं सर्वसिद्धान्तसिद्धम् सपदि निगदितं ते शास्रपुञ्जं विलोक्य जगति सुखकथातो निर्मलम् नास्ति किञ्चिन् पिब परमसुखहेतोद्वादशस्कन्धसारम् एतां यो विनेततया पृशृणोति भक्त्या यथै यश्चैनां कथयति सिद्धवैष्णवाग्रे तौ सम्यग्विधीकरणात् फलं लभेते याथान्न हि भूनये किमप्यसाधयम् इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमहात्म्ये त्रवणविधिकथनं नाम षष्ठोऽध्यायः समाप्तम् इदं श्रीमद्भागवतमहात्म्यं हरिः ओं तत्सत्